कृष्णयजुर्वेदतैत्तिरीयारण्यके तृतीयः प्रश्नः प्रारम्भः तच्छयारावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरः सुनः स्वस्तिर्मानुषेभ्यः को ध्वन्दिकातभेषजम् षण्मास्तद्यपते चिञ्जदुष्पदे ओम् शान् दुःशान् दुश्यान्विः चित्विसृग चित्तमाज्यम् वाग्वेदिः आरीदम्बरिः वेदो अग्निः विज्ञानमग्निः आत्मतिर्होता मनोपवक्ता प्राणो हविः सामाध्वर्योः वाचस्पदे विधेनामन्न विधेमते नाम विधेयस्त्वमस्माकम् नाम वाचस्पतिः सोमम् स्मासुन्दम् धात् स्वाहा पृथिवीहोतार्यो पुत्रास्पतिरवभुक्ता वाचस्पदे वाचावीर्येण संहृतदमेनायक्षते यजमानाय वार्यम् आदुभस्करस्मै वाचस्पतिः सोमम् पिबति ज नतिन्द्रमिन्द्रियाय स्वाहा अग्निर्होता अश्विनाध्वर्यो त्वष्टाग्नी मित्र उपवक्ता स्वामस्वामस्य पुरोगाः शुक्रशुक्रस्य पुरोगाः स्नातास्थ इन्द्रहोमाः वादापेरहवनश्रुरस्वाः सूर्यम् देचक्षुः वादम् प्राणः याम् पृष्ठम् अन्तरिक्षमात्मा अङ्गेम् पृथिवीगो शरीरे वादस्वतेच्छिद्रया वाचा अच्छिद्रया जिह्वा त्रिविदे वाृधगोः ग्रामेरे स्वस्वाहा महाहविरहोता सत्यः अच्युतबाजाग्नीत अच्युतमनापवक्ता अनादृश्यश्च प्रतिदृश्यश्च यज्ञस्याभिगरौ अयाश्च उद्गादाचस्मते हृद्धि नामन् विधेमते नाम विधेस्त्वमस्माकन्नाम आचस्पति सोममपाद मा दीव्यस्तन्धेदिमा मनुष्यः नमो दिवे नमः पृथिवी स्वाहा वाग्धोदा दीक्षापत्नी आपो आपोऽभिगरः मनोहविः तमसि जुहोमी भोर्भुवस्वः ब्रह्मस्वयम्भो ब्रह्मणे स्वयम्भुवे स्वाहा ब्राह्मण एकहोदा स यज्ञः समे ददातु प्रजां पुशोम् गुष्ट्यञ्जः मे भूयाद् अग्निर्तिहोदा स भक्ता समे ददातु प्रजाम् भक्ताजमे भूयाद, पृथिवी त्रिहोदा सप्रतिष्ठा समेददाजप्रजाम् पुशोम्बुष्टिङः प्रधिष्ठाचमे भूयाद् अन्तरिक्षञ्चतुर्होदा सविष्ठाः समेददाजप्रजाम्पुशोऽष्टिङः इष्टाश्चमे भूयाद् वाजिःपुञ्जहोदा स प्राणः समेददाजप्रजाम् पुशोऽम्बुष्टिंशः प्राणश्चमे भूयाद् चन्द्रमाषड्ढोदा स समे ददातु प्रजाम् पशोऽन्बुष्ट्यञ्जिषः रसवश्च मे कल्पन्ताम् अन्नकौ सत्त्वहोदा स प्राणस्य प्राणः समे ददातु प्रजाम् पशोऽन्बुष्ट्यञ्जिषः प्राणस्य च मे प्राणो भूयात् यो रष्टहोदा सो नाधृष्यः समे ददातु प्रजाम् पशोऽन् पुष्ट्यङिषः नाधृष्यश्च भूयासम् आदित्यो नवहोता स तेजस्वी समे ददातु प्रजाम् पशोऽन्पुष्ट्यञ्जषः तेजस्वी च भूयासम् प्रजापधर्दशहोदाम् समेतदातु प्रजाम् पशुम्बष्टिंशः सर्वम् च मे भूयात् अग्निरैलद्भिः सविदास्तोमैः इन्द्रमदैः यत्रावर्णावासिषा अङ्गिलसोऽधिष्ठिरग्निभिः मरुदस्थानाभ्याम् आ वस्त्रोक्षणीभिः वोषधयबिषा स्पष्टयत्नेन विष्णुर्यज्ञेन वसवराज्येन आदित्यादक्षिणाभिः विश्वेदेवापूज्या पूजास्वकाकारेण बृहस्पतिः पुरोधयाः प्रजापतिरुद्गीधेन अन्तरिक्षम् पवित्रेण वायुःपात्रीः अहग्रश्रद्धया सेनेन्द्रस्य धेन बृहस्पतेः वाग्वायोः दीक्षासानस्य व्यज्ञेः रसोनाङ्गायत्री रुत्राणादित्यानाम् जगदी कृष्णोर्नष्टकवरणस्य विराट् यज्ञस्य बन्दिः प्रजापतेरनुमतिः मित्रस्य श्रद्धा सविदः प्रसूदिः सौर्यस्य मरीचिः चन्द्रमसारोहिणी ऋषीनामरन्धरी हर्जन्यस्य विद्युत् चतस्रो दिशः अहस्य रात्रिश्च ऋषिश्च वृष्टिश्च आपश्चौषधेश्च मूर्त्य च देवानाम् पत्नयः देवस्य त्वा सवे अश्विना बाहुभ्याम् उष्णास्ताभ्याम् प्रतिगृह्णामि राजा आत्त्वा वरुणानैतक्षिणे हिरण्यम् तेनामृतत्वमस्याम् वयोधात्वे वयो मह्यमस्त्रप्रतिगृहीत्रे हैरङ्गस्मादामः कामो दाता कामप्रतिगृहीता कामकोंसमुद्रमाविश कामे हत्वा प्रतिगृह्णामि कामे दत्ते एषा ते कामदक्षिणा उत्तानस्वाङ्गेरस प्रतिगृह्णातु कोमाय वासः रुद्रायका वरुणायाश्वम् प्रजापते पुरुषम् मन वेतल्पम् त्वेजाम् कूष्णेयम् निरत्याश्वतरगन्धभौ हिमवतो हस्तिनम् गन्धर्वाप्सराभ्यश्च कलङ्करणे विश्वेभ्यो देवेभ्यो धान्यम् वाचेऽन्नम् ब्रह्मणगोधनम् समुद्रायानरायरथम् वन्दमानस्मो यादिजागृविः राजा त्वा वरुणो नैतदेव दक्षिणे वैश्वानराय रथम् वयो दात्रे वयो प्रतिगृहीत्रे कैलङ्गस्मादा कामः कामाय कामादाता कामः प्रतिगृहीता कामगो समुद्रमानिष कामेन त्वा प्रतिगृह्णामि कामैतत्ते एषा ते कामदक्षिणा उत्तानस्त्वाङ्गेरसप्रतिगृह्णादो सुवर्णम् घर्मम् परिवेदभेनम् इन्द्रस्यात्मानन्दशताचरन्तम् अन्तस्वमुद्रे मनसाचरन्तम् ब्रह्मा रमन्ने अन्तः प्रविष्टस्यास्ता जनानाम् धा विचारः शतगो शुक्राणि यत्रैकम् भवन्ति सर्वे वेदा यत्रैकम् सर्वे होदारो यत्रैकम् भवन्ति समानसेन आत्माजनानाम्प्रविष्टस्यास्ताजना सर्वा आत्मा सर्वा प्रजायत्रैकम् भवन्ति चतुर्होदारो यत्र सम्पदम् गच्छन्ति देवैः समानसेन आत्माजनानाम् ब्रह्मेन्द्रमग्निम् जगतः दिव आत्मानगो सवितारम् बृहस्पतिम् चतुरहोतारम्वविन्दत अन्धप्रविष्टम् गर्तारमेतम् कष्टारको रूपाणि वि कुर्वन्तम् विभश्चिम् अमृतस्य प्राणम् यज्ञमेतम् चतुरहोतॄणामात्मानम् अवयोनिचिज्ञो अन्धप्रविष्टम् गर्तारमेतम् देवानाम् बन्धुनिरङ्गृहासो ृत्तमेतम् चतुरहोतनामात्मानम् कवयोनुजिज्ञो शतम् निजिप्परिवेद विश्वा विश्वमारः शिश्वमिदम् मृणादि इन्द्रस्यात्मा निजपञ्च होता अमृतम् देवानामायुः प्रजानाम् इन्द्रकं राजानकंसवितारमेतम् आयोरात्मानम् कवयोऽनुचिज्ञो रश्म्यो रश्मीनाम् मध्येदबन्तम् रतस्य पदे कवयोनिपान्तिकोशे भवनम् विभत्ति अनिर्भिन्नः सन्नथलोकान् विजिष्टे यस्याणमुल्पम् येन कृप्तौ मृतेनाहमस्मि सुवर्णङ्गोषगो रजसा परीवृतम् देवानाम् वसुधानीराजम् चक्षतेषड्ढामनोतप्ताः षगोषो दारमकल्पमानम् पदे कवयनिपान्ति अन्तःप्रविष्टम् अन्तश्चन्द्रपति मनसाचरन्तम् सहैव सन्त्रस्यात्मानकोसरथाजगतो सप्तहोधा सप्तथा विक्लप्तः परेण तन्तम् परिशुच्यमानम् अन्तराजिते मनसाचरन्तम् देवानागो हृदयम् ब्रह्मान्वविन्दत ब्रह्मैतत् ब्रह्मण उद्यभार अर्गर्गश्चातन्त्रगो शरीरस्य मध्ये ैरवः मेहेन्द्रबहुलागुश्रियम् बह्स्वामिन्द्रगौपदीम् अश्वदाम् बहुलागुश्रियम् सहत्तमः वेलरिन्द्राय मिन्दते बह्स्वामिन्द्रगौपदीलागुश्रियम् अर्वाया दवशुभिरश्मिन्द्रः बहुलागुश्रियम् रश्मिरिन्द्रस्य विदा मे नियच्छतु गदन्ते जोमधुमीन्द्रियम् मय्यजमर्दधातु हरिः पदञुपन्नः वीक्षयो न इन्द्रः कामवरन्ददातु पञ्चारञ्जक्रम् परिवर्तते बृधो अजश्रञ्जो तन्नभसा सप्तदेति स न इन्द्रः कामवरन्ददातु सप्तयुञ्जन्तिक्रम् हे गोश्वम् हे नेमाविश्वाभवनानदस्थम्ग्रे तपो दीक्षामृषयसुर्विदः ततः क्षत्रम् बलमोजस्य जातम् तदस्मै देवाभिदन्मन्तो श्वेतगो रश्मिम्भो विद्यमानम् भवान् नेतारम्भोनस्य गोपाम् परमे व्योमन्नोहिणेप्यङ्गला एकरूपाः शरन्देऽप्यङ्गला एकरूपाः शतगो सहस्राणि प्रयुतानि नाम्यानाम् अयम् यश्वेतो रश्मिः हरि सर्वमिदम् जगत् प्रजाम् अस्माकम् ददातु श्वेतारश्मित्र सर्वम् लघुव स्वनमह्यम् पुशोन् विश्वरूपान् परङ्गमक्तमसुरस्य मायया प्रतापश्रन्थमनसा मनीषिणः समुद्रे अन्तः कवयो विचक्षते परीचीनाम् पथमिच्छन्ति वेधसः पतङ्गो वा जन्मनसा विभक्ति ताङ्गन्धर्वौ अन्तः तान् योतमानागस्वर्यम् मनीषाम् अतस्य पदे कवयोनिपान्ति ये ग्राम्याः पशो विश्वरूपाः हिरोभाः सन्तो बहुधैकरोपाः अग्निस्वागमग्रे प्रमोऽदेवः प्रजापतिः प्रजासंविधानः गेऽस्तु गे एवमस्मास निगच्छदम् तप्रतिन्दिरा ये ग्राम्याः पशवविश्वरूपाः तिरोभाः सन्तो बहुधैकरोपाः तेषागमधत्तानामेकन्तिरस्तो साय स्पोषाय सुप्रजास्वाय स्वीर्याय्यात् पशव विश्वपाः रिः सन्तो बहुधैकरूपाः आयुस्तागोमग्रे प्रमोग्रदेवः प्रजापतिः प्रजयासंविधारः इडायी सप्तम् कृतवच्चराधरम् देवान्वविन्दुहाहितम् ह्यारन्याः पशवो विश्वरूपाः त्रिरूपाः सन्तोपहृदैकरूपाः सप्तानाम् हरन्दिरस्तु कायस्पोषाय सुप्रिया स्वायसुवीर्याय सहस्रवीरुषा पुरुषः सहस्राक्षःसहस्रपाद् सपोमम् विश्वता भृत्वा प्रत्यधिष्ठद्दशाङ्कुलन् पुरुष एवेदगो सर्वम् यद्भूतम् यत्र भव्यम् तदामृतत्वस्यैशानः अजन्मेना तिरोहति एतावानस्य महिमा ततोऽध्यायाकृष्टपूरुषः पादोऽस्य विश्वा भूतानि स्यामृतम् दिवि त्रिपादोद्भवदे पुरुषः पादोऽस्येहाभवात्पुनः ततो विश्वङ्ग्यक्रामत् शाशनानशने अभि तस्माद्विराडजायता विराजोरधिपूरुषः स जातात्यरिच्यता तस्यात्मो विवसा पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्मताज्यम् श्रीष्मयज्ञः शरद्धविः सप्तास्यासम्परिधयः त्रिः सप्तसमिधः कृताः देवा यद्यज्ञन्दनाः अवध्मन् पुरुषम् वशम् तन्यज्ञम् बर्हि शुप्रोक्षन् तेन देवा यजन्ता स्त्रिये तस्माजिज्ञात् सर्वहतः तस्माजिज्ञात् सर्वहृतः यजस्सामान्यज्ञरे षण्डाज्ञरे तस्मात् यजस्तस्मादजायत तस्मादश्वा अजायन्ता ये केजो भयादतः गावस्मात् तस्माज्जाता यत्पुरुषं तथा व्यकल्पयन् मुखम् किमस्य को बाहोराजन्यस्य यद्वैष्यः श्रोत्रोजायत चन्द्रमामनसो जातः चक्षो सूर्यो जायत मुखाचन्द्रश्चाग्निश्च प्राणात्वायुर्जायत आभ्यासीदन्तरिक्षम् श्रीर्ष्णा तथा लोकागुमकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवन् नन्दमनस्वपारे सर्वाणि रूपाणि विजित्यधीरः नामानि कृत्वा भिवतमेदास्ते धाता पुरस्ताद्यमुदा जहार शक्रः प्रविद्वान् नश्चस्रमेवम् विद्वानमृतय भवति यज्ञेन यज्ञमयन्द देवाः तानि सन्माणि प्रथमान्यासन् ते ह नागम हिमानस्य चिन्ते यत्र पूर्वे साध्याः सन्ति देवाः सम्भोदपृथिव्यैरताच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टापमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्नन्दमसप्नसतात् प्रजापतिश्चरदिगद्भ्ये अन्तः प्रजायमानो बहुधा विजायते तत् शीराच्छन्ति वेधसः यो देवेभ्य आदपदि यो देवानाम् पुरोहितः कोर्भो यो देवेभ्यो जातः नमो ब्राह्मये रुचम् ब्राह्मम् जनयन्तः यस्यैवम् तस्य देवास नवशे श्रीश्च देव लक्ष्मीश्च पत्न्यो होरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनोव्यात्तम् इष्टम् मनिशान मम मनिषान सर्वम् मनिषान भर्ता सन्धुयमानो विभक्ति एको देवो बहुधा निविष्टः यथा पारम् तन्द्रैदेशभर्तुम् विधाय वारम् पुनरस्तमेति तमेव मृत्युमृतन्दमाहुः तम् भक्तारन्दमगोक्तारमाहो सभृतो भ्रियमाण विभक्तिवेद सत्येन भक्तम् सद्यो जातमुतजहात्येषः जरन्तम् न जहात्येकम् बहूनेकमहजहारन्द्रो देवः सदमेव प्रार्थः कस्तद्वेरेता बभूव सन्धान् श्रियागुणे ब्रह्मणैषः प्रमदेकस्मिन्वतजीर्णे श्रियाने नैनन्दहात्यहस्व पूर्वेषु पुनाम् भजाना त्वं यज्ञस्वमुसि सोमः तव देवाः पमायन्ति सर्वे त्वमेकासि बहु न प्रविष्टा नमस्तेऽस्तु रसहोमेधि नमो वामस्तु शृतमोहवं मे प्राणापानावचलमौ सञ्चरन्तौ त्वयामि वा ब्रह्मणा गोत्तमेदम् यो माञ्ज्येष्ठितवानो संविधानो जितम् नामासङ्गता ब्रह्मना संविधानो तथाय तत्तन्तमहमोहनामि असज्जानसदा बभूव यङ गोपालस्य सदा भारम् तन्द्रैदेशभक्तुम् परास्य भारम् पुनरस्त्वमेति तद्वयी त्वम् प्राणानुभवः महान्भोगः प्रजापतेः कुजः करिष्यमाणः तद्देवान् प्राणयो नव हरिगुंहरम् दमनयन्ति देवाः विश्वस्यैानमृषं मदीनाम् ब्रह्मसुरुपमनुमेदमागादयधेर्विक्रमस्व आशितो मृत्यो मावधीः मामे मा प्रमोजीः प्रजाम् मामेरीरिषायुर्ग्रा प्रजक्षन्द्वाहविषा विधेम तद्यश्चनाय प्रवेपानाय मृत्युवे प्रा स्मानाशाजनयन् पुनः कामेनमेका महागाद्मीषा मदप्रियम् तदेतोपमामभि परम् मृत्यो न परे हि पन्थाना चक्षुष्मदेशंहते एब्रवीमि मानप्रजागुरीरिशोमोदवीरान् भोर्यम् मनसा वन्दमानः नाथमानो वृषभञ्जर्षणीनाम् प्रजानामेकरामानुषीणाम् ृमजा मृतस्य आप्यायस्वश्वाभिरूधिभिः भवानः सपृथस्तमः पूर्वतरामपश्यन् युच्छन्ती मृषसम्मर्त्या समाभिक्षा भूतो देयन्ति ये परिषुपश्यान् ज्योतिष्मदीन् त्वा साधयामि चो दुष्कृतम् त्वा साधयामि चो दर्पितम् त्वा साधयामि पास्पदीन् त्वा साधयामि ज्वलन्तीन् त्वा साधयामि ममलामन्दीन् त्वा साधयामि दीप्यमाणान् त्वा साधयामि प्रयासा स्वाहा यासा स्वाहा अपि यासा स्वाहा सञ्जासा स्वाहो यासा स्वाहा प्रयासाय स्वाहा शुचे स्वाहा शोका स्वाहा तप्यत्वे स्वाहा तपदे स्वाहा ब्रह्म स्वाहा सर्वस्मे स्वाहा चित्तको सन्तानेन भवञ्जयज्ञा रुद्रन्दनिम् नापशुपतिग्रस्थो हृदये नाज्ञको ना हृदयेन रुद्रम् लोहितेन सर्वम् मदस्नाप्यां महादेवमन्तः पार्श्वे नष्ठहनगो शिङ्गीकोस्याणीमहे गातुम् यज्ञाय गातुम् यज्ञपदये दैवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः कोध्वन्दिकादिभेषम् शन्नस्तद्विपदे शञ्जतिष्पदे ओम् शान्तिः इति आरण्यकभागे तृतीयः प्रश्नः समाप्तः